श्रीमद्भागवत महापुराणादश स्कंधम लौकिक तथा पारलौकिक भोगों की असारता का निरूपण श्री भगवाच मयोदि स्वहि स्वधर्मेशमदाश्रय वर्णाश्रमकुलाचार काम आत्मा सचरे अन्वेच्छेत् विशुद्धात्मा देहिनां विषयात्मनां गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् सप्तस्य विषयालोकोऽध्यायतो वा मनोरथ नानात्मकत्वाद्यफलस्तथा भेदात्मधीर्गुणैर्वित्तं कर्म सेवेत प्रवृत्तं मत्परस्यजेत् जिज्ञासायां शम्प्रवृत्तो नाद्रियेत कर्मचोदनां यमानभीक्षणं सेवे नियमान्मत्परक्वचिन् मद्विज्ञं गुरुं शांतं उपासेत मदात्मकम् अमान्यमत्सरो दक्षो निर्ममो दृढ जायापत्य गृहच्छेत्रस्वचन्द्रविणादिषु उदासेन समं पश्यन् सर्वे स्वर्थमिवात्मनः विलक्षणशूलसूक्ष्माद्देहादात्मेक्षितास्पदे यथाग्निर्दारुणोदास्याद्दाहकोऽन्यप्रकाशकः निरोधोत्पत्यणुं बृहन्नात्वं तत्कृतान् गुणान् अत प्रविष्ट आधत्त एवं देहगुणान् परः योऽसौ गुणै विरचितो देहोऽयं पुरुषस्य हि संसारस्तन्निबन्धोऽयं पुंसो विद्याचिदात्मनः तस्माज्जिज्ञासयात्मानम् आत्मस्थं केवलं परम् सङ्गम्य निरसेदे तन्वस्तुबुद्धिं यथाक्रमम् आचार्यो रणिराद्य स्यादन्ते वासुत्तरारणे तत्सन्धानं प्रवचनं विद्यासन्धि सुखावह वैशारदी साति विशुद्धबुद्धिर्धुनोति मायां गुणसम्प्रसूतां गुणास्य सौन्दह्य जलात्ममेतत् स्वयं च साम्यत्यसमे यथाग्निः यथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः नानात्मस नित्यत्वं लोककालागमात्मनाम् मन्यसे सर्वभावानां संसारोत्पत्तिकीयता तत्तदा कृतभेदेन जायते भिद्यते च धीम् एवमप्यङ्ग सर्वेषां देशीनां देहयो गतः कालावयतः सन्ति भावा जन्मादयो सखीम् अत्रापि कर्मणां कर्तु स्वतन्त्रां च लक्ष्यते भोक्तुश्च दुःखसुखयो कोऽर्थो विवशं भजेत् न देहिनां सुखं किञ्चित् विद्यते विदुषामपि तथा च दुःखम् मूढानां वृथाऽहङ्करणं परम् यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः तेऽप्यद्धा न विोगम् मृत्युर्णा प्रभुवेद्यथाम् कोऽर्थः सुखयत्येनं कामो वा मृत्युरन्तिके आघातं नियमानस्य वधस्यैव न तुष्टितः श्रुतं च दृष्टवद्दुष्टं स्पर्धासूयात्यं यव्ययैः बहुवन्तराय कामत्वात् कृषिवच्चापि निष्फलम् अन्तरायैरविहतो यदि धर्म स्वनिष्ठितः तेनापि निर्जितं स्थानं यथा गच्छति तत् शृणोन् इष्टवेह देवतायज्ञैश्वरलोकं याति याज्ञिकः भुञ्जीतदेववत्तत्र भोगान् दिव्यान् निजार्जितान् श्वा पुण्योपचिते शुभ्रे विमाना उपगीयते गन्धर्वै विहिरन् मध्ये देवीनां यद्यवे त्रिविकामगयानेन किङ्कणे जालमालिना क्रीडन्न वेदात्मपातं सुराक्रीडेषु निवृत्तः तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते क्षीणपुण्यपतत्यर्वाङ्च्छन् कालचालितः यद्य संगादस्ताम् वाजितेन्द्रियः कामात्माना कृपणो लुब्धश्रैणो भूतविहिंसकः वसो न विधनालस्य प्रेतभूतगणाञ्जयन् नरकान्वशो जर्गत्वा यात्युल्बणं तमः कर्माणि दुःखोदकरणां दर्काणि कुर्वन् देहेन तै पुनः देहमाभयं भजते तत्र किं सुखं वर्तधर्मिणः लोकानां लोकपालानां मद्भयं कल्पजीविनां ब्रह्मणोऽपि भयं मत्वा विपरार्धपरायुष गुणासृजन्ति कर्माणिं गुणोऽनुसृजते गुणान् देवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ यावस्याद्गुणवैषम्यं तावन्नात्ममात्मनः नानात्वमात्मनो यावन्तारतन्त्रं तदैव हीं यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयं य एतत्समुपासीरतं रस्ते मुह्यन्ते शु चार्पिता काल आत्मागमो लोकस्वभावो धर्म एव च इति बहुधा प्राहुर्गुणव्यतिकरे सति उद्धौ उवाच गुणसुवर्तमानोऽपि देहजेष्वनुपावृतः गुणैर्न बध्यते देही बध्यते वा कथं विभो कथं वरतेत विहरेत कैर्वाज्ञायेत लक्षणैः किं भुञ्जेतोत विसृज्ये चैतासीत याति एतद्यत्युतमे ब्रूहि प्रश्नं प्रश्नविदाम्बर नित्यमुक्तो नित्यबद्ध एक एवेति मे भ्रमः इति श्रीमद्भागवते महापुराणे पारमहंसां सहितायाम् एकादशस्कन्धे भगवदुद्धवसंवादे दशमोऽध्यायः